हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्म रामायणे अरण्यकाण्डे पञ्चमः स्वर्गः महादेव उवाच तस्मिन् काले महारण्ये राक्षसी कामरूपिणि विचारे महर्षत्वा जनस्थाननिवासिनि एकदा गौतमी तीरे पञ्चवट्या समीपतः पद्नवज्राङ्कुशाङ्कानि पदानि जगति पतेः दृष्ट्वा कामुतात्मा पादसौन्दर्य मोहितः पश्यन्ती सा शरीराया राघवस्य निवेशनम् तत्र सातम् रमानाथम् सीतया सह संस्थितम् कन्दर्पसदृशम् रामम् दृ्ट काम विमोहिताक्षसी राघव प्रा कश्यम कक्ष आश्रुक्त जटा वर्कलाभ्य साध्यम कि शूर्पणा राक्षसी कामिणी भगिनी राक्षसेन्द्र से रावण से महात्म खरेण सहिता भ्रात्र वसाम्यत्रैव कानने राज्ञा दत्तम् च मे सर्वम् मुनिभक्षा वसाम्यहम् सान्तु वेदितुमिच्छामि वद मे वद ताम्बर तामाह रामनामहम् अयोध्याधिपतेः सुत एषा सुन्दरी भार्या सीता जनकनन्दिनी नन्दिनी स तु भ्राता कनीयान्मे लक्ष्मणोऽतीव सुन्दरः किं कृत्यं मयिते मया ब्रूहि कार्यम् भुवन सुन्दरी इति राम वच कामार्ता सा प्रवेदिदम् एहि राम मया सार्धम् न शक्नोमि त्यक्तुम् ताम् कमलेक्षणम् रामस्ति ताम पश्यन् सस्मितमब्रवीत् भार्या ममैषा कल्याणी विद्यते इहनपायिनी सन्तु सा पत्नदुःखेन कथं स्थास्यसि सुन्दरी बहिरास्ते मम भ्राता लक्ष्मणोऽतीव सुन्दरः तवानुरूपो भविता पतिस्तेनैव संचर इत्युक्ता लक्ष्मणं प्राह क्षसी घोरा लक्ष्मता तमह लक्ष्मण साधी दाशोहम तस्मता दासी भविष्य दुख तरह गज्रम थे स तु राजा अखिलेश्वरः तच्छ्रुत्वा पुनरप्यागात् राघवम् दुष्टमानसा क्रोधात् कि राम किमर्थम् धामयस्य नवस्थित न वस्थितः इदानीम् एवम् ताम् सीताम् भक्षयामि तवाग्रतः इत्युक्त्वा विकिताकार अनुधावति ततो रामाज्ञया खड्गम् आधाय परिगृह्यताम् चिच्छेदनाम् करणो चेत् लक्ष्मणो लघु विक्रमः ततो घोर ध्वनिं कृत्वा वृजिराक्तपुर्धृ क्रन्दमाना पपाताग्रे खरस्य परुषाक्षरः खरे, खरे तराक्षरः केनैव कावितासी त्वम् मृत्युर्वक्त्रानुवर्तिना वदमे तं वधिष्यामि काल कल्पम् अपि क्षणात् तम्ब राक्षसी रामः सीतालक्ष्मणसंयुतः दण्डकम् निर्भयं कुर्वन् आसे गोदावरी तटे माम् एवं कृतवान् तस्य भ्राता तेनैव चोदितः यदि त्वं कुलदातोऽसि वीरोऽसि जहितौ रिपु तयो पासे क्षययेतौ सुदुर्मधो नो चेत् प्राणान् प्रीत्यज यास्यामि यमसाधनम् तच्छ्रुत्वा त्वरितम् प्रागात् खरक्रोधेन मूर्छितः चतुर्दशसहस्राणि रक्षसाम् भीमकर्मणाम् चोदयामास रामस्य समीपम् बधकाङ्क्षय चैव दूषणश्चैव राक्षसः सर्वे रामं ययुशीघरं नाना प्रहरणोद्यता श्रुत्वा कोलाहलं तेषाम् रामसौमित्रिमब्रवीत् श्रूयते विपुलशब्दो नूनमायान्ति राक्षसाः भविष्यति महद्युद्धम् नूनं मध्य मया सह सीतां नित्वा गुहां गत्वा तत्र तिष्ठ महाबले हनुमिच्छान् यम सर्वान् राक्षसान् घोररूपिणः अत्र किञ्चिन्न वक्तव्यं शापितोऽसि ममोपरि तथेति सीतामादाय लक्ष्मणो गौहरं ययो परिकरं बध्वाय धनुराय निष्ठुरम् क्षय करोशरो बद्ध्वा भवत्प्रभु तत् आगत्य रक्षासि रामस्योपरि चिक्षिपुः आयुधानि विचित्राणि पाषाणान्यादपानपि तानि चिच्छेद रामोऽपि लीलयातिव शक्षण ततो बाणसहस्रेण अत्वा तान् सर्व खरं त्री शिरसं चैव दूषणम् चैव राक्षसम् जघान प्रहरार्धेन सर्वानेव रघुत्तमः लक्ष्मणोऽपि गुहाम् अध्यात् राघवे समर्प्य राक्षसान् दृष्ट्वा हतान् विस्मयमायययो सीतारामम् समालिङ्ग्य प्रसन्ना मुखपङ्कज व्रणानि <coughs> च अङ्गेषु मम मार्जनकात् मया सापि दुद्राव दृष्ट्वा तान् हतान् द्राक्षस पुङ्गवान् गत्वा सभाम् मध्ये क्रोशन्ति पादसन्निधौ रावणस्य पपातो भगिनी तस्य रक्षसः दृष्ट्वा तान् रावणप्राह भगिनीम् भयविह्वलाम् उत्तिष्ठत्तिष्ठवत्से तम् रणं तव कृतं चक्रेण वा भद्रे यमेन वरुणेन वा कुबेरेणाथवा ब्रूहि भस्मे कुर्यां क्षणेन तम् राक्षसी तम् उवाचेदम् सम्प्रमत्व विमूढधि पानासक्त श्रीविजित षण्ढ सर्वत्र लक्ष्यसे चर कथम राजा भविष्यति करच निहत संख्ये दूषणस्त्रिशिरासः चतुर्दश सहस्राणि राक्षसानाम् आत्मनाम् निहतानि क्षणेनैव रामेण सुरशत्रुणा जनस्थानम् अशेषेण मुनीनाम् निर्भयम् कृतं न जानाति विमूढस्तम् अथ सेव मयोच्यते रावणो वाच को वा रामः मा किमर्थं वा कथं ते नासुराहतः सम्यक् कथयमेतेषाम् मूरघातम् करोम्यहम् शूर्पणखा वाच जनस्थानाधम् याता कदाचित् गौतमी तत्र पञ्चवटी नाम पुरा मुनि जनाश्रया तत्राश्रमे मया दृष्टो रामो राजीवलोचनः धनुर्बाण धर श्रीमान् जटावल्कलमण्डितः कनैयाननुजस्तस्य लक्ष्मणोऽपि तथाविध तस्य भार्या विशालाक्षी रूपिणी श्रीरिवापरा देव गन्धर्व नागानाम् तथा विधा ना ना न दृष्ट्वा द्योतयन्ति वनं शुभा अनेतुम्भमुद्युक्ता साभार्यार्थं तव निह लक्ष्मणो नाम्ब तद्भ्राता चिच्छेद मम नासिकाम् कर्णो च नोति तस्थेन रामेण स्मः बलः ततोऽहम् अतिदुःखेन वदसि खरमन्वगाम् स्वप् रामम् समासाद्य युद्धं राक्षस तदक्षणेन रामेण तेनैव बलशालिना सर्वे तेन विनिष्ठा वै राक्षसा भीम विक्रमः यदि रामो मनः कुर्यात् त्रैलोक्यं निमिषाधतः भस्मी कुर्यान्न सन्देह इति भाति मम प्रभो यदि साये तव भार्या सफलं तव जीवितम् अतो यत् यसाते ते वल्लभा भवेत् सीता राजीव पत्राक्षी सर्वलोकैकसुन्दरी साक्षात् रामस्य पुरतः स्थातुं त्वं नक्षम प्रभो मायया मोहयित्वा तु प्राप्स्यते तां रघुत्तमम् श्रुत्वा तत् सूक्तवाक्यै च दानमानादिभिस्तथा अश्वस्य भगिनीं राजा प्रविवेश स्वकं गृहम् तत्र चिन्ता पुरो निद्राम्रात्रो निद्रां रात्रो न लब्धवान् एनं रामेण कथम् मनुष्य मात्रेण नष्ट सबल करो मे गाता बलवीर्य दर्प युतो विनष्टो बत राघवेण मनुय न रामो मनुज परेशो मा सबलं बलोभै सम्प्रार्थितोऽयम् द्रोहिणेन पूर्वम् मनुष्यरूपो जरघो कुले भूत् वध्यो यदि स्याम् परमात्मनाहम् वैकुण्ठराज्यम् परिपालयेहं नो चेदिदम् राक्षसराज्यमेव भोक्ष्ये चिरम् राममतो रजामि इत्थम् विचिन्त्यखिल राक्षसेन्द्रो रामम् विदित्वा परमेश्वरम् हरिम् विरोधबुद्ध्यैव हरिम् प्रयामि श्रुतम् न भक्त्या भगवान् प्रसीदेत् इति श्रीमदध्यात्मरामायणे मामेश्वरसंवादे अरण्यकाण्डे पञ्चमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु